श्रीमद्भागवत् महापुराणं दशं स्कन्धम् अथ सप्तषष्टितमोऽध्यायः द्वित्का उद्धार राजवाच भूयोऽहं श्रोतुमिच्छामि रामस्याद्भुतकर्मणः अनन्तस्याप्रमेयस्य यदन्यत कृतवान् प्रभु श्रीशोकुवाच नरकस्य सखा कश्चिद्विधो नाम वानरः सुग्रीव सचिवसोऽथ भ्राता महेन्दस्य वीर्यवान् सख्यो सोपचितिं कुर्वन् वानरो राष्ट्रविप्लवम् पुरग्रामाकरान् घोषान् अदहन् वह्निमो सृजन् क्वचित् स शैलान् उत्पाट्य तैर्देशान् समचूर्णयन् आनर्तां सुतरामेव हरिः क्वचिन् समुद्रमध्यस्थो दोर्भ्यामुत्क्षिव्य तज्जलं देशान्नागायित् प्राणो वेलाकूला न मज्जयत् आश्रमान्षमुख्यानां कृत्वा भग्नवनस्पतिन् अदूषि यत्किन् मित्रैरग्निन्वैतानिकान् खल पुरुषान् योषितो दृप्त स्मा भृद्र द्रोणीगुहासुष निक्षिप्य चाप्यधाक्षैलये पेसस्कारीव कीटकम् एवं देशान् विप्रकुर्वन् दूसयस्य कुलस्त्रियः श्रुत्वा गायन्तं वारुणीं प्रयत्वा मद्विह्वलोचनं विभ्राजमानं वपुषा प्रभिन्नं देव वारणम् दृष्टशाखा मृगशाखामारूढकम्पयन्द्रुमान् चक्रे किल चक्रे किलकिलाशब्दं। आत्मानं सम्प्रदर्शयन् तस्य धास्य कपे वृक्ष्य तरुण्यो जाति आशप्रियाविजहसुबलदेव परिग्रहाः ताहेलयामास्कपिर्भूक्षेपै सम्मुखादिभिः दर्शयन् स्वगुदं तासां रामस्य च निरीक्षतः त्रं ग्रां रां त्राहरत् वृद्धो बलप्रहृताम्बरः स वञ्चयित्वा ग्रावाणं मदिराकुलशं गृहीत्वा हेलयामास धुरितस्तं कोपयन् हसन् निर्भिद्य कलुषं दुष्टो वासां श्यास्फालयद्बलं कदर्थीकृत्य बलवान् विप्रचक्रे मदूद्धतः तं तस्याविनयं दृष्ट्वा देशांश्च तदुपधृतान् क्रुद्धो मुसल्मादत्त हलं त्यारे जिखांशया द्विविधोऽपि महावीर्यशालमुद्यम्य पाणिनाम् अभ्येद्यतरसा तेन बलं मृधन्यताडयन् तं तु शङ्कर्षणो मूर्ध्नि पतन्तम् अचलो यथा पते जग्राहबलवां सुनन्देनाहनज्जतं मुसलाहतमस्त्यस्को विरेजे रक्तधारया गिरेर्यथा गैरिकया प्रहारं नानुचिन्तयन् पुनरन्यं समुद्धीप्य कृत्वा निष्पत्रमोजसाम् तेनाहनस संक्रुद्धतम्बलसतदाच्छिनन् ततोऽन्येन रुषा जग्ने तं चापि सतदाच्छिनन् एवं युद्धन् भगवता भग्ने भग्ने पुनः पुन आकृष्य सर्वतो वृक्षान् वृक्षम् अकरोद्वनं ततो मुच्यञ्छिलावर्षं बलस्योपर्यमर्शितः तत्सर्वं तुलयामाश लीलयामुशलायुध स बाहूतालु सङ्कासौ मुष्टीकृत्य कपीश्वरः आसाद्यरोहिणी पुत्रम् ताभ्यां भक्षस्य रूरुज्ज्वलत यादवेन्द्रोपितम् दोर्भ्यां त्यक्त्वा मुसुल्लाङ्गले जद्रावभ्यन्दयत्क्रुद्धसोपदं धृधिरं वमन् च कम्पे तेन पतता सतङ्कवनं स पर्वतः कुरुशार्दूलवायुनान्नोर्वाम्भे जयशब्दो नम शब्द साधुसाध्वीरचाम्बरे त्रिरसिद्धमुनिन्द्राणाम् आसीत कुसुमरुं वर्षिणाम् एवं निहत्यधिविधं जगद्यतिकरावहं संस्तूयमानो भगवान् जनयेष्वपुरमाविशत् ते श्रीमद्भागवते महाप्राणे पारहिंशां शयितायां दसंस्कन्धे उद्रार्थे द्विद्वधोनां सप्तषष्टितमोऽध्यायः